श्रीहरये नमः अथ चतुश्चत्वारिंशोऽध्यायः श्रीशुक उवाच एवं चर्चितसङ्कल्पो भगवान् मधुसूदनः आससाधानचाणोरं मुष्टिकं रोहिणीसुतः हस्ताभ्यां हस्तयोर्भ पद्भ्यामेव च पादयोः विषहर्षतुरन्योन्यं प्रसह्य विजिज्ञीषया अरत्नी द्वे अरत्निभ्यां जानुभ्यां चैव जानुनी शिरसिष्णो रसो योन्यमभिजग्धुह परिब्रामण विक्षेप परिरम्भावनैः परस्परं जिकी शन्तावपचक्रतु आत्मनः समेता सर्वयोषितः ऊचुप् परस्परं राजन् सानुकम्पावरूत सखा महानयम्बता धर्म येषां राजसभासदान् ये भला फलवत्युद्धम् राज्ञोन्विच्छन्ति पश्यतः क्व वज्रसार सर्वाङ्गौ मल्लौ चैलेन्द्र सन्निभौ क्व चाति किशोरौ नाप्तयौवनौ धर्मव्यतिक्रमो ह्यस्य समाजस्य ध्रुवं भवेत् यत्रा धर्मसमुत्तिष्ठेन्न स्तेयं तत्र कर्हि चेत् न सभां प्रविचेत् प्राज्ञः सभ्य दोषाननुस्मरन् अब्रुवन् विब्रुवन्न ज्ञो नरकिल्बिषमश्नुते वल्गतशत्रुमृत कृष्णस्य वदनाम्भुजं वीष्यतां श्रमवार्युक्तं पद्मकोशमिव अम्बुभिः किं न पश्यत रामस्य मुखं मातम्रलोचनं मुष्टिकं प्रति सामर्षं हाससंरम्भशोभितं पुण्याभत व्रजभुवो यदयं गापालयन् स गबलक्वणयंश्च वेणुं विक्रीटयाञ्च दिगिरेत्र गोभ्यस्तपक्किमचरन्यतमुष्यरूपं लावण्यसारमसमोर्ध्वमनन्यसिद्धं दृग्भिपद्य नो तवाभिनवं धुराभ धुराप मेकान्तधाम यश्रिय ऐश्वरस्य या दोहने मतनोपलेप प्रेङ्केङ्कनार्भरुतिदोषनमार्जनाधौ गायन्ति चैनम् अनुरक्तदियोश्रुकण्ठ्यो धन्याव्रजस्त्रियगुरुग्रमचित्तयानाः प्रातर्व्रजा व्रजत आविसतश्च षाया गोपीस्तमं क्वणयतोऽस्य निशं यवेणुं निर्गम्य तूर्णम् अफलाः पति भूरिपुण्याः पश्यन्ति सस्मितमुखम् सदयावलोकम् एवं प्रभाषमाना सुस्त्रीषु योगेश्वरो हरिः शत्रुम् कन्तुम् मनश्चक्रे भगवान् भरदर्षभ तभया स्त्री गिरः श्रुत्वा पुत्रस्नेहसुचातुरौ पितरौ अन्वतप्येताम् पुत्रयोरबुधौ तैस्तैर्नियुद्धविधिविदैरश्च्युतेतरो युयोधा दे यदान्योन्यं तथैव बलमुष्टिकं भगवद्गात्र चाणूरो भजमाना गोमुनूर्ग्लानिमवापः सस्येन वेगमुत्पत्य मुष्टीकृत्य भगवन्तं वासुदेवं क्रुद्धो वक्षस्य बाधत नाचलत् तत्प्रकारेण माला कथयिवद्विपः भगवो निगृह्य भूपृष्ठे बोतयामास तरसाक्षीण जीवितं विस्रस्ता कल, कल्पकेश्रक्वजयिवापत तथैव मुष्टिक समुष्टायि बिहते न बलभद्रेण बलिना तलेना भृशं प्रवेपितश्च रुधिरम् उद्धमन्मुखतोर्दितः व्यसुप्पपादोर्व्युपस्तेवाधाहतयिवाङ्िपः ततः कूटमनुप्राप्तं रामः प्रखरतां वरः अवधिल्लीलया राजन् सावज्ञं वाममुष्टिना तर्ह्येव हि चाणूरे मुष्टिके कूटे शले तोषलके हते तेषा सर्वे प्राणपरिप्सवः गोपान्वयस्यानाकृक्ष्य तैः संसृज्य बिजह्रतुः वाद्यमानेषु तूर्येषु वल्गन्तौ रुतनू जना सर्वे कर्मणा रामकृष्णयोः ऋतेकं संविप्रमुख्या साधवः साधु सात्विते हतेषु मल्लवर्येषु विद्रुतेषु च भोजरान् न्यवारयत् वाक्यं चेतमुवाचः निस्सारयत दुर्वृत्तौ वासुदेवात्मझौ पुरा धनं हरत गोपानं नन्दं पद्मीतधुर्मतिं वासुदेवस्तु दुर्मेता हन्यतामस्वथसप्तमः उग्रशेनः पिता चापि सानुगः परपक्षगः एवं विहत्तमानेवैकंसे प्रकुपितो लघिम् नोत्पत्य तरसा मञ्जमुत्तुङ्गमारुह तमाभि सन्तमालोक्य आसनात् मनस्पीसखसोत्थाय जगृके समग्रकी दुर्विशहोग्रते यदोरगं दार्श्यसुतः प्रसह्यं प्रगृह्य केशेषु शलत्किरीटं निबात्य रङ्गोपरितुङ्गमञ्चात् तस्योपरिष्टात् त्वयमब्जनाभ पपात विश्वाश्रय आत्मतन्त्रः तं सम्परे हरिर्यतेभं जगतो हा केति शब्द तुमहांस्तधा भूतुतीरितः सर्वजनैर्नरेन्द्र स नित्योद्विघ्ननति यातमीश्वरं पिबन्वतन् वा विचरन् अभ्यधावन्नभिकृतां भ्रातुर्निर्वेशकारिणः तथा तिरभसांस्तांस्तु संव्यत्तान् रोहिणीसुतः अहन्परिगमुद्यं यपासूनिव मृगादिपः नेतुर्दुन्दुभयो व्योम्नि ने ब्रह्मे साध्या पुष्पैकिरन्तस्तं प्रीता तेषां स्त्रियो महाराज सुहृन्मरणदुःखिताः तत्रा भी सयाना वीरशय्यां पतीिंग रोचती हे विलेपुः सुस्वरं नार्यो विसृजन्त्यो मु मुहुश्चुषः आनाथप्रियधर्मज्ञकरुणानाथवत्सला त्वया हतेन निहता वयं ते सकृहप्रजाः त्वया विरचिता पत्या पुरीयं पुरुषर्षभा न शोभते वयमिव अनागसां त्वं भूतानां कृतवान् द्रोकमुल्भणम् तेनेमां भूतशां नीतो भूतदृक्को लभेदसं सर्वेषाम् इह भूतानाम् एष हि प्रभवाव्ययः गोप्ता च तदवध्यायी न क्वचित् सुखमेधते राजयोक्षित आस्वास्त्य भगवान् लोकभावनः यामाकूर्तौकिकीं हतानां समकारयत् मातरं पितरं चैव मोचयित्वा तबन्धनात् कृष्णरामौ ववन्धा ते शिरसास्पृश्य पादयोः देवकी वसुधेवस्य विज्ञाय जगदीश्वरौ कृतसम्बन्धनौ पुत्रौ सस्वजातेन सङ्कितौ इति श्रीमद्भागवते महापुराणे दशमस्कन्दे पूर्वार्धे कंसवधो नाम चतुश्शत्वारिंशाध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्दा सद्गुरुना तु महराजकी जय